ॐ नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे चतुर्दशोऽध्यायः श्रीनारायण उवाच अथ चिन्तातुरस्यास्य गृहं वाल्मीकिरायजौ यो रामचरितं दिव्यं चकारपरमाद्भुतं दूरादालोक्यभूपालः समुत्थाय सम्भ्रमम् अनीनमत्तच्चरणौ दण्डवन् दण्डवद्भक्तिसंयुतः सम्पूज्य स्थापयामास तमृषिं परमासने पादावङ्कगतौ कृत्वा भ्यां समलालयत् पादावनेजनीरापः शिरसाधारयन्मुदा उवाच स्निग्धया वाच स्मरन् कीरवचो नृपः दृढधन्वोवाच भगवन्कृतकृत्योऽहं भाग्यवानस्मि साम्प्रतम् अद्य मे सफलं जन्म हद्यार्थोऽधिगतः प्रभु श्रुतं मे सफलं जातं यद्भवानक्षिगोचरः किं वर्ण्यं मे महद्भाग्यं जगत्पावनपावनम् इत्युक्त्वा मुनिषार्दूलं विररामसभूपतिः वाल्मीकिरपितं दृष्ट्वा राजानं विज्ञयान्वितम् धु साधु, साधु नृपश्रेष्ठ त्वय्येतदुपपद्यते चिन्तातुरः कथं राजन् वद सर्वं मनोगतं किञ्चिद् वक्तुं स्पृहातेऽस्ति तद्वद स्वमहामती दृढधन्वोवाच भवदीयपदाम्भोज कृपया मे सुखं सदा परं त्वे को महान् विद्वन् सन्देहो हृदये मम तमपाकुरुशल्यं त्वं वन्यकीरमुखोद्गतं कदाचिन्मृगया कामो गतोऽहं गहने वने भ्रमन्नपश्यं कासारम् तत्र पीतं जलं मया श्रमापनोदनाकाङ्क्षी महान्यक्रोधमाश्रितः स्निग्धच्छाजं सुनिविडं मनोनयनन्दनं तत्रापश्यं स्थितं क्षीरं मनोमोदविधायकम् दत्तदृष्टिरहं यावज्जातस्तस्मिन् पतत्रिणी तावन्मां सम्मुखीभूय श्लोकमेकम् पपाठ विद्यमानातुलसुखम् आलोक्यातीव भूतले न चिन्तयसि तत्त्वं त्वं तत्कथं पारमेष्यसि इति वाचं सुखेनोक्ताम् आकर्ण्याहं सुविस्मितः न तज्जानाम्यहं किमुवाच हरिच्छदः इमं मेहार्दसन्देहं भवानुच्छेत्तुमर्हति मम राज्यसुखं पुत्राश्चत्वारश्चारुदर्शनाः पत्नीपतिव्रतारम्या गजाश्वरथपत्तयः समृद्धिरतुला ब्रह्मन् केन पुण्येन मेधुना एतत्सर्वं समासेन विचार्य वक्तुमर्हसि भूपस्य, मुनि मुहूर्तं श्रुवा वाक्या भूपीर्तमूर्त ध्यान करामलगवद विश्व भूत भव्यम भवच्च यदोक्य हृदय निश्चि राजवाच शिणु भूपतिशादूल रहस्यं ते वदाम्यहम् आसीत् पुरा महेपालमान्यो द्रविणदेशजः द्विजः कश्चित् सुदेवाख्यस्ताम्रपर्णीतटेऽवसन् धार्मिकः सत्यवादी च यथालाभेन तोषवान् वेदाध्ययनसम्पन्नो विष्णुभक्तिपरायणः अग्निहोत्रादियागैश्च तोषयामासतं हरिं सदैवं वर्तमानस्य भार्यासीदवरवर्णिनी गौतमीति सुवख्याता गौतमीति सुविख्याता गौतमस्य सुताशुभां पतिं पर्यचरत्प्रेम्णां भवानीव भवं प्रभुं गृहमेधविधौ तस्य वर्तमानस्य धर्मतः व्यतीतः सुमहान् कालः प्रापासौ सन्ततिं नहि एकदासनसंविष्टः सेव्यमानः स्वकान्तय उवाच वचनं विप्रो विषण्णो गद्गदाक्षरम् अयि संसारे सुखं नास्ति सुतात्परं लोकान्तरे सुखं पुण्यम् तपोदानसमुद्भवम् सन्ततिः शुद्धवंशा हि परत्रेह च शर्मणि तमप्राप्य पुत्रं जीवितं मम निष्फलम् मया पुत्रो वेदार्थो न प्रबोधितः नोदवाहश्च कृतस्तस्य जन्मगतं मम सद्यो मे वृतिरेवास्तु न ह्यायुश्च प्रियं मम इत्थं प्रियवचः श्रुत्वा सुन्दरी खिन्नमानसा समाश्वासयितुं धीरा प्रियवाक्यविशारदाम् अविवदद्वचः सौम्यं प्रियप्रेम परिप्लुतां गौतम्युवाच मा प्राणेश्वरब्रूहि तुच्छवाक्यानि साम्प्रतं भवद्विधा भागवतं नैव मुह्यन्ति सूरयः सत्यधर्मपरोऽसि त्वं जितः स्वर्गस्त्वया कथं पुत्रैः सुखावाप्तिर्ज्ञानिनस्तव सुव्रतं चित्रकेतुः पुरा ब्रह्मन् पुत्रशोकेन ुष्पुत्राद् वेनाद्वनमगान्निषि तथा संतारितो भवत् स्वामिन् दुःखदा च भविष्यति तथापि तव तथापितवसत्पुत्र लालसाचे तपोधन। आराधय जगन्नाथं हरिं सर्वार्थदं मुदा यमाराध्यपुरा ब्रह्मन् कर्दमः पुत्रमाप्तवान् साङ्ख्याचार्यस्तुतं देवं कपिलं योगिनां वरं धर्मपत्न्या वचश्चेत्थं श्रुत्वा विप्रशिरो मणिः निश्चित्यैवं तया सार्धं ताम्रपर्णितटङ्गत स्नात्वाथ विरजे पुण्ये चचार परमन्तपः शुष्कपर्णजलाहारः पंचमे पंचमे दिने चत्वार्यब्दसहस्राणि गतान्येवं तपोनिधेः तस्यैतत्तपसा ब्रह्मन् त्रयो लोकाश्च कम्पिरे अत्युग्रं तत्तपो दृष्ट्वा भगवान् भक्तवत्सलः प्रादुर्बभूवतरसं गरुडोपरि संस्थितः तं दृष्ट्वा नवजलदूपमं मुरारिं दोर्दण्डैर्जगदवनक्षमैश्चतुर्भि संलक्ष्य मुदितमुखं सुदेव शर्मा साष्टाङ्गं नतिमकरोन्मुता इति श्रीबृहन्नारदीयपुराणी पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे चतुर्थोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु